सरस कदम्ब पारागराल सा शीतल सुर वि सरस कदम्ब पारागराल सा शीतल सुर वि अमृतद अमृत पारो पराया सीकरमो पिक आया सी करमूति कारा रेलि काञ्चन नलिनी तीरे सिद्धि सि अमित चन्द्रिवागर मधु माधवी ऋषिमणि कृत बटवासर पुसु दयति प्रति मन्द कृत मिलित परास्पर पुसुमायु दयति प्रतिम पत्र निर सङ्गल हरिमणि किरणी कायाले काञ्चन नरिमि dadar rachal ranil samaharate sahadaj मधुर मनो हिङ्गले अधिक सुरन प्रबिय divihina vasanta magora jha samudita uma dupa ninana ya divihina ीमुडातूल नवयुव आरशवासि वीरो करल कांचन नरिमि I didn't need